ेषिनं नाम दैतेयं राजन्वै हयविग्रहं तथावनगतं पार्थ गजायुतबलं हयं प्रहितं भोजपुत्रेण जघानपुरुषोत्तमः आन्ध्रं मल्लं च चाणूरं निजघानमहासुरं सुनामानममित्रघ्नम् सर्वसैन्यपुरस्कृतं बालरूपेण गोविन्दो निजघान च भारत बलदेवेन चायत्तः समाजे मुष्टिको हतः त्रासितश्च तदा कंस स कृष्णेन भारत ऐरावतम् युयुत्सन्तम् मातम् गानामि वर्षभम् कृष्णः कुवलयापीडम् हतवांस्तस्य पश्यतः हत्वा कंसममित्रघ्नः सर्वेषाम् पश्यताम् तदा अभिषिच्योग्रसेनन्तम् पित्रोः पादमवन्दत एवमादीनि कर्माणि कृतवान् वैजनार्दनः चित्तत्र दिनानि सहलायुधः ततस्तौ जग्मतुस्तात गुरुम् सान्दीपनिम् पुनः गुरुशुश्रूषया युक्तौ धर्मज्ञौ धर्मचारिणौ व्रतमुग्रम् महात्मानौ विचरन्तावतिष्ठताम् अहोरात्रचतुष्षष्ट्या षडङ्गम् वेदमापतुः लेख्यम् च गणितम् चोभौ प्राप्नुताम् यदुनन्दनौ गान्धर्ववेदम् सकलं समवापतुहु। सकलम् समवापतुः हस्तिशिक्षामश्वशिक्षाम् द्वादशाहेन चापतुः तावुभौ जग्मतुर्वीरौ गुरुम् सान्दीपनिम् पुनः धनुर्वेदचिकीर्षार्थम् धर्मज्ञौ धर्मचारिणौ ताविश्वस्त्रवराचार्यमभिगम्य प्रणम्य तेन तौ राजन राजन् विचरन्ता भवन्तिषु पञ्चाशद्भिरहोरात्रैर्दशाङ्गम् सुप्रतिष्ठितं सरहस्यम् धनुर्वेदम् सकलम् ताववापतुः